ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायं सेवन् स्थेयपानकथनम् इन्द्र उवाच भगवन् सर्वमाख्यातं हिंसाद्यस्य दु लक्षणं लक्षणं किं वा तन्मे विस्तरदो वद बृहस्पतिरुवाच पापानामधिकं पापं हननं जीवजादिनां यदस्मादधिकं पापं विश्वस्ते शरणं गदे विश्वस्य हत्वा पापिष्ठं शूद्रं वाप्यन्द्यजादिजं ब्रह्महत्याधिकं पापं तस्मान्नास्त्यस्य निष्कृतिः ब्रह्मज्ञस्य दरिद्रस्य कृच्छ्रार्जितधनस्य च बहुपुत्रकलत्रस्य तेन जीवितुमिच्छतः तद्द्रव्यस्ते यदोषस्य प्रायचित्तं न विद्यते विश्वस्तद्रव्यहरणं तस्याप्यधिकमुच्यते विश्वस्ते वाप्य वाप्यविश्वस्ते न तदो हरेत् ततोदेवद्विजातीनां हेमरत्नापहारकं यो हन्यादविचारेण सोऽमेधफलं लभेत् गुरुदेवद्विजसुहृत्पुत्रस्वात्मसुखेषु च स्थेयादधक्रमेणैव दशोत्तरगुणं त्वखम् अन्ध्यजात्पादजाद्वैश्यात् क्षत्रियाद् ब्राह्मणादपि दशोत्तरगुणैः पापैर्लिप्यते धनहारकः अत्रैवोदाहरन्दीममितिहासं पुरातनं रहस्यादिरहस्यं च सर्वपापप्रणाशनं पुरा, पुरा काञ्चीपुरे जादो वज्राख्यो नाम चोरकः तस्मिन् पुरवरे रम्ये सर्वैश्वर्यसमन्विताः सर्वे निरोगिणो दान्ता सुखिनो दययाञ्झिताः सर्वैश्वर्यसमृद्धेस्मिन्नगरे सदुतस्करः स्तोकास्तोकक्रमेणैव बहु द्रव्यमपाहरद तदरण्ये वडं कृत्वा स्थापयामास लोभतः तद्गोपनं निःशार्थायां तस्मिन् दूरं गदे सति किराधः कश्चिदागत्य तं दृष्ट्वा तु जहारा वितितस्तेन काष्ठभारं वहन्ययौ सोपि तच्छिलयाच्छाद्य मृद्भिरापूर्य यत्नतः पुनश्च तत्पुरं प्रायाद्वज्रोपि धनतृष्मया एवं बहुधनं धृत्वा निश्चिक्षेपमहीतले किरातोऽपि गृहं प्राप्य बभाषे मुदितः प्रियाम् मया काष्ठं समाहर्तुं गच्छदा पथि निर्जने लब्धं धनमिदम्भीरुसमाधत्स्वधनार्दिनि तच्छ्रुत्वा तत्समाधाय निधायाभ्यन्तरे ततः चिन्तयन्ती तदो वाक्यमिदं स्वपदिमब्रवीत् नित्यं संचरदे विप्रो मामकानां गृहे श्रुयः मां विलोक्यैवमचिराद् बहुभाग्यवती भवेत् चादुर्वर्ण्याः सुन्दरीषु चेद्राजवल्लभा किन्दु भिल्ले किराते च चा, शैलूषे चान्द्यजाति चे लक्ष्मीर्नतिष्ठदि चिरं शाभाद्वल्मीकजन्मनः तथापि बहुभाग्यानाम् पुण्यानामपि पात्रिणे दृष्टपूर्वं तु तद्वाक्यं न कदाचिद्वृद्धा भवेत् अथवात्मप्रयासेन कृच्छ्राल्लभ्यते धनं तदेव तिष्ठति चिरादन्यद्गच्छति कालतः स्वयमागतवित्तं तु धर्मार्थैर्विनियोजयेद् कुरुष्वैतेन तस्मात्वं वापि कूपाधिकाङ्क्षुभान् इति तद्वचनं श्रुत्वा भाविभाग्यप्रबोधितं बहुदकसमं देशं तत्र निर्ममेधमहेन्द्रस्य दिग्भागे विमलोदकं सुबहुद्रव्यसंसाध्यं तडाकं चाक्षयोदकं दत्तेषु कर्मकारिभ्यो निखिलेषु धनेषु च असम्पूर्णं तु तत्कर्म दृष्ट्वा चिन्ताकुलो भवत् तं चोरवज्रनामानमज्ञातोनुचराम्यहं तेनैव बहुधा क्षिप्तं धनं भूरि महीतले स्तोकं स्तोकं हरिष्यामि तत्र तत्र धनं बहु इति निश्चित्य मनसा तेनाज्ञात्तस्तमन्वगाद् तथैवाधृत्य तद्रव्यं तेन सेधुमपूरयद मध्ये जलावृतस्तेन प्रासादश्चापि शार्ङ्गिणः तत्तडागमभु महद सेधुमध्ये चकारसौ शङ्करायतनं महद काननं चक्षयं निदं बहु सत्त्वसमाकुलं तेनाग्र्याणि महार्हाणि क्षेत्राण्यपि चकारसः देवताभ्यो द्विजेभ्यश्च पदत्तानि विभज्य ब्राह्मण्णांश्च समामन्द्र्यदेवव्रातमुखान् बहून् सन्तोष्य हेमवस्त्राद्यैरिदं वजनमब्रवीद क्व चाहं वीरदत्ताघ्यकिराधकाष्ठविक्रयी क्व वा देवालयकल्पना क्व वा क्षेत्राणि कृप्तानि ब्राह्मणायतनानि च कृपयैव कृतं सर्वं भवदाम्भूसुरोत्तमाः प्रदिगृह्य तथैवै देवव्रातमुखाद्विजाः द्विजवर्मेदि तस्यै शीलवतीति चक्रुसन्तुष्टमनसो महात्मानो महौजसः तेषां संरक्षणार्थाय बन्धुमिस्सहितो वशी तत्रैव वसतिं चक्रे मुदितो भार्यया सह पुरोहिताभिधानेन देवराद पुरन्त्विति नामचक्रे पुरस्यास्य तोषयन्नखिलान् द्विजान् ततःकालवशम्प्राप्तो द्विजवर्मा मृतस्तदा यमस्य ब्रह्मणो विष्णोर्दुदा रुद्रस्य चागदाः अन्योन्यमभवत्येषा युद्धं देवासुरूपमम् अत्रान्तरे समागत्य नारदो मुनिरब्रवीद मा कुर्वन्तु मिथो युद्धं शृण्वन्तु वचनं मम अयं किरातश्चैर्येण सेदुबन्धं पुराकरोत् वायुभूतश्चरेदे को यावद्द्रव्यवधो मृतिः स बहुभ्यो हरे द्रव्यं तेषां यावत् गतेष्वखिलदूतेषु श्रुत्वा नारदभाषितं चचारद्वादशाब्दं तु वायुभूतोऽन्तरिक्षगः भार्यां तस्याः स दोषो न किञ्चन त्वया कृतेन वायुभूदं पदिं दृष्ट्वा नेच्छति ब्रह्ममन्दिरं निर्वेदं परमापन्ना मुनिमेवमभाषद विनापदिमहं तेन न गच्छेयं पितामहं वास्ते पदिर्यावत् स्वदेहं लभते तथा ततस्तु यागदिस्तस्य तामेवानुचराम्यहं परिहारोऽथवा किन्तु मया कार्यस्तु तेन वा इति तस्याव च श्रुत्वा प्रीदः प्राहस्तपोधनः भोगात्मकं शरीरं तु कर्मकार्यकरं तव मम परिहारं वदामि निराहारो महातीर्थे स्नात्वा नित्यं हि साम्बिकं पूजयित्वा शिवं भक्र्या कन्दमूलफलाशनः ध्यात्वा कृति महेशानं शतरुद्रमनुं जपेद् ब्रह्ममुच्यते पापैरष्टोत्तरसहस्रतः पापैरन्यैश्च सकलैर्मुच्यते नात्र संशयः तस्यैरुद्राध्यायं तपोधनः अनुगृह्येदि तां नारीं तत्रैवान्तर्द्धिमागमद भर्तुः प्रियार्थे सङ्कल्प्य जचापरमं जपम् विमुक्तस्ते यदोषेण स्वशरीरमवापसः तदो वज्राभितश्चौर्यकालधर्ममुपागतः अन्ये तद्रव्यवन्दोऽपि कालधर्ममुपागताः यमस्तु तान् वाक्यं चैददुवाचः भवद्भिस्तु कृतं पापं दैवात् सुकृतमप्युद भोक्तुं दुष्कृतस्य शुभस्य वा इति तस्य वच श्रुत्वा प्रोचुर्वज्राधिकास्ततः सुकृतस्य फलं त्वादौ पश्चात्पापस्य भुज्यते पुनराह यमो यूयं पुत्रमित्रकलत्रकैः ये तस्यैव बलात् सर्वे त्रिदिवं गच्छदधृतम् तेऽधिरुह्यविमानाग्र्यं द्विजवर्मणमाश्रिताः यथोचितफलोपेतास्तृदिवं जग्मुरञ्जसा द्विजवर्माखिलां लोकानदित्यप् प्रमदासखः गाणपत्यमनुप्राप्य कैलासेद्यापि मोदते इन्द्र उवाच तारतम्यविभागं च कथयत्वं महामदे सेतुबन्धादिकानां च पुण्यानां पुण्यवर्धनम् बृहस्पतिरुवाच पुण्यस्यार्धफलं प्राप्य द्विजवर्मा महायशाः वज्रप्राप्य तदर्थं तु तदर्थेन युधाः परे मनोवाकाय चेष्टाभिश्चतुर्धा क्रियते कृतिः विनश्येत्तेन देनैव कृतैस्तत्परिहारकैः इन्द्र उवाच आसवस्य दुःखीं रूपं को दोषकश्च वा गुणः अन्नं दोषकरं किन्दु तन्मे विस्तरदो वद बृहस्पतिरुवाच पैष्टिकं तालजं कैरं माधुकं गुढसम्भवं क्रमान्यूनतरं भावं तदर्थार्थार्थतस्तथा क्षत्रियादित्रिवर्णानामासवं पेयमुच्यते स्त्रीणामपि तृतीयादि पेयं स्याद्ब्राह्मणीं विना पतिहीना च कन्या च त्यजे धृदुमती अभर्तृसन्निधौ नारी मद्यं पिपदि लोलुपा उन्मादिनीधि सा ख्याता तां त्यजेदन्त्यजामिव दशाष्टषट्चतस्रस्तु द्विजादीनामयं भवेत् स्त्रीणां मद्यं तदर्धं स्यात् पादं स्याद् भर्तृसङ्गमे मद्यं भित्त्वा द्विजोमोहात् चांद्रायमं चरेत् जपेच्छायुधगायत्रीं जादवेदसमेव वा अम्बिका हृदयं वापि जपेच्छुद्धो भवेन्नरः क्षत्रियोऽपि त्रिवर्णानां द्विजातार्धोऽर्धदक्रमात् स्त्रीणामर्थार्थक्लृप्तिः स्यात् कारयेद्वा द्विचैरपि अन्तर्जले भैरवो भैरवीकाली महाशास्त्री च मातरः अन्याश्च शक्तयस्तासां पूजने मधुशस्यते ब्राह्मणस्तु विनादेन यजेद्वेदाङ्गपारकः तन्निवेदितमश्नन्दस्तदन्यास्तदात्मकाः तासां प्रवाहा गच्छन्ति निर्लेपास्ते परां गतिं कृतस्य अखिलपापस्य ज्ञानतो वा प्रायश्चित्तमिदं प्रोक्तं पराशक्तेः पदस्मृतिः अनभ्यर्च्य परां शक्तिं पिबेन्मद्यं दुयोधमः रौरवे नरकेब्दं निवसेद्बृन्दुसङ्ख्यया भोगेच्छया दुयो मद्यं पिबेत् स मानुषाधमः प्रायश्चित्तं न चैवस्य शिलाग्निः पतनादृते द्विजो मोहान्न पिबेत् स्नेहाद्वा कामातोपि अनुग्रहाच्च महदामनुदापाच्च कर्मणः अर्चनाच्च पराशक्तेर्यमैश्च नियमैरपि चांद्रायनेन कृत्रेण दिनसङ्ख्याकृतेन च शुभ्ये च ब्राह्मणो दोषाद्विगुणाद् बुद्धिपूर्वतः यदि ब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने स्तेयपानकथनं नाम सप्तमोऽध्यायः ओ